मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फोर्टिसिक्स् वामनवरप्रधानम् श्रीगणेशाय नमः दक्ष उवाच श्रुत्वा कथां गणेशस्य हर्षश्चेतसि वर्धते अधकथय सर्वज्ञचरित्रं वामनस्य यदा मुद्गल उवाच कश्यपो मुनीषादूल प्रजापदी सो अस्त पत् ज्येष्ठा परम धाका तश्य देवा इंद्राद्या जिरेभो विरुद्ध स्थि दैत्या मुनेः सुताः बलेन वरगर्वेण देवान् हन्तुं अभवन् विष्णुना ते वै नानारूपेण नाशिताः न ना प्रापुस्वर्गराज्यं ते सर्वमान्यं यदा तदा काव्यं सकलनिदिज्ञं शरणं प्रययुः पुनः तेषां सर्वं सवृत्तान्तं विदित्वा मुनिपुङ्गवः दैत्यानुवाच काव्यो वेदविदां वरः काव्य उवाच बलिदानवमुख्या वै शृणुध्वं मे वचोहितं यज्ञे देवाः समुत्पन्ना यज्ञा धारास्तदः अतोश्वमेधयज्ञैश्च यजध्वं शतसङ्ख्यकैः बलिरिन्द्रो महाबाहुर्भविता नात्र संशयः द्वेषभावं च देवानां सदा सञ्चाद्ययत्नदः तेन स्वर्गभुजो दैत्ययोयं सर्वत्र पूजिताः भष्यत महागादम कुरुदमद्वजः सर्वे हृष्ठाश्चर साधु तदस्ते बलिराज च मुख्यम्वा त्वरिदा अश्वेधु दीक्षित चक्रुरादराद बलिर्विरोचनादो विष्णुभक्तिपरायणः अधर्मेण रुचिस्तस्य जायते हि कदाचन आदौ त्यक्त्वा गणेशानं विष्णुं स्मृत्वा महासुरः आद्यं तं यज्ञमारेभे विष्णुभक्त तया कल तर चेष्टम्य्न परमर्षि उवाच सदस्यदूजि न गणाधिपुक् मुक्ति प्रदतायु त्यक्वा ते सि विष्णोर्बलेन दैत्यस्य भवेत्सिद्धिश्च कीदृशी भक्षयिष्यामि तत्सर्वं कर्म तेन मखे कृतम् इत्युक्त्वा स स्वयं विघ्न आयौ क्रोधसंयुतः प्रविश्य देवराजस्य हृदये संस्थितोऽभवद यज्ञासङ्कल्पितास्तस्य विप्रैस्तु शतसङ्ख्यकाः आद्ये यज्ञे समारब्धे इन्द्रश्चिन्तातुरोभवद शतयज्ञप्रभावेण बलिरिन्द्रो भविष्यति तदस्सरणं विष्णुं जगाम सुरनायकः न त्वा स्तुत्वा महातेजाक् प्रार्थयामास सादरं विष्णुं देववरं तत्र बलियज्ञविनाशने एतस्मिन्नन्तरे तत्र विघ्नकालस्वरूपधृक् बलवान् विष्णुमाविश्य संस्थितो हृदये भवत् बलेः प्रचेष्टितं पूर्णं कथितं वज्रपाणिना तत् सकलं विष्णुरिन्द्रं प्रोवाच सत्वरं विष्णुरुवाच अदित्या कश्यपेनापि तपस्तप्तं सुदारुणं शतवर्षमदर्थं च तस्मिन्काले सुराधिपा तयो तयोरहं प्रसन्नात्मा वरदश्च पुरा भवं पाभ्यां त्वं पुत्रदां याहि याचिदं सर्वभावदः ओमित्युक्तं मया वरं सभलं प्रभो अधुनाहं करिष्यामि बलेर्यज्ञस्य नाशने विस्मृता विष्णुनात्यन्तं बलेर्भक्तेर्महाद्भुदा स बलेर्निग्रहार्थं च स्वयमवोद्यतो भवद स विष्णुः कश्यपा जादो ह्यदित्यां वामनः प्रभुः बलेर्बलं निरीक्ष्यैव नशशाखप्रचालितुम् मनसिक्षुभिदो विष्णुकश्यपं पितरं तदा पप्रच्छबलिनाशाय वधोपायं महामुने षडक्षरमहामन्त्रं वक्रतुण्डस्य तं ददौ तदोत्सौ च विदर्भेषु गत्वा तपसि संस्थितः दशवर्षं महोग्रं स तपस्तेपेः सुदारुणम् निराहारतया दक्ष गणेशम् हृदि चिन्तयन् उग्रेण तपसा तस्य प्रत्यक्षसिंहवाहनः षडक्षरप्रभावेण तम् ययौ भक्तवत्सलः च दुर्बाहुधरः पूर्णसिद्धिबुद्धिसमन्वितः एकदन्तो गजाकारमुखः पाशाङ्गुशादिधृक सिन्दूरारुणदेहश्च शूर्पकर्णो महोदरः कोटिसूर्यसमानेन त्यजसा सुविराजितः तं दृष्ट्वा सखसोद्धाय वामनः प्रणनामसः बद्धाजलिपुटो भूत स्म सपचक्रे वम उवाच नमो विघ्नपदे तोभ्यम भक्त विघ्न विनाशिने दात्रे जगनेशाय नमो नम वक्रतुंडा सर्व पालकाय नमो नम नानारूपधरायैव सर्वान्तर्यामिणे नमः सर्वं चराचरं स्वामिं त्वदाज्ञा वशवर्ति विभूदिभिर्महाराज कुरुषे सर्वमञ्जसा ब्रह्मा प्रजापदीनां त्वं यज्ञानां विष्णुरेव ईश्वराणां स्वयं देवानां त्वं पुरन्तरः प्रकाशानां रवित्वं च चन्द्रोन्नेषु गणाधिप यमो यमवदां त्वं वै वरुणो यादसाम् प्रभो वायुर्बलवतां त्वं च निधीनां धनपः अग्निर्वैदाहकानां त्वं रक्षसां निरृदि स्वयम् नागानां शेषरूपोऽसि योगिनां शुक्र एव च कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः गुहसेनापदीनां त्वं मृगाणां सिंहवेषभृत एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनं वेदा शेषश्च वेधा च शक्ता नस्तवनेभवन् तथापि च संस्तुतोऽसि च विघ्नप तव दर्शनमात्रेण कृत कृत्योऽस्मि धन्यं जन्म वै येन दृष्टो गजाननः धन्यौ मादापिदा मेऽद्यस्थलं धन्यं तपोऽपि च षडक्षरश्च मन्त्रोऽयं धन्यो येन येवमुक्त्वा एवमुक्त्वा ननर्तास्सौ भक्तिभावपरिप्लुतः रोमाञ्चितशरीरो भूदानन्दाश्रुसृजन्मुखः देहभावं परित्यज्य वामनो हर्षसंयुधः तदेकनिष्ठतां प्राप्तो महाभागः प्रजापदे तं तादृश्यं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतं जगाद परमात्मासौ वामनं भक्तवत्सलः गणेश उवाच शृणु वामनमे वाक्यं वरं वृणुहृदीप्सितं तव भक्रिया तपोयुक्रियास्तुत्या वै वैतुष्टिमागदः। दास्यामि सकलं तुभ्यं तोभ्यं सुदुष्करं सको बाो भक्तिस्ते मे परापदी त्वया स्तोत्रं सर्वदं या कृतम स्त्रोत्रद प्रभविष्यति यठे्रवेद्वा तद्धिष्यम यम, यम चिंतदे काम तम तम दाया दुर्लभम वन्दे मोक्षं महाविष्णो स्वानन्दे प्रददाम्यहम् इति तस्य वच श्रुत्वा वक्रतुण्डस्य शोभनं वामनः भूत्वा तं जगाद गजाननं प्रसन्नो यदि देवेश देहि भक्त्रिं दृढां च दे बलिं देवरिपुं धुण्ठे मत्साध्यं कुरु दैत्यपम् यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय यथा न मां वरं देहि गजानन तदेदि तमधोक्त्वा सौ गणेशोन्तर्दधे स्वयम् वामनस्तत्रदेवेष्यं देवेशं स्थापयामास हर्षदः अदोषाख्यं महाक्षेत्रं विदर्भे स्थानमुत्तमं वक्रतुण्डस्य सम्भूतं नराणां सर्वसिद्धिदम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदिश्रीमगले महापुराणे प्रथमे खंडे वामन प्रधानमं नाम षटच्त्वरिशोध्या